स चास्य प्रति तदा प्रीतिपूर्वम् महाराजा वासुदेवमवेक्ष्य च ततः स रत्नान्यादाय ततः शूर्पारकं चैव वशे चक्रे महातेजा दण्डकांश्च महाबलः सागरद्वीपवासांश्च नृपतीन्लेच्छयो निजान्निषादान् पुरुषादांश्च कर्णप्रावरणानपि ये च कालमुखा नाम नरराक्षसयोनयः कृत्स्नं कोलगिरिं चैव सुरभीपत्तनं तथा द्वीपं तां राह्वयं चैव पर्वतं रामकं तथा तिमिंगिलं च स नृपं वशे कृत्वा महामतिः एकपादांश्च पुरुषान् केरलान्वनवासिनः नगरीं सञ्जयन्तीं चापाखण्डं करहाटकम् दूतैरेव वशे चक्रे करं चैनानदापयत् पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोण्ड्रकेरलैः आन्ध्रांस्तालवनांश्चैव कलिङ्गानुष्ट्रकर्णिकान् आटवीं च पुरीम् रम्याम् यवनानाम् पुरम् तथा दूतैरेव वशे चक्रे करम् चैना समुद्रतीरमासाद्यान्यविशत् पाण्डुनन्दनः सह देवस्ततो राजन् मन्त्रिभिः सह भारता सम्प्रधार्य महाबाहुः सचिवैर्बुद्धिमत्तरैः अनुमान्य स ताम् राजन् घटोत्कचम् ततश्च चिन्तितमात्रेतो राक्षसः प्रत्यदृश्यता अतिदीर्घो महाकायः सर्वाभरणभूषितः नीलजीमूतसङ्काशस्तप्त काञ्चनकुण्डलः विचित्रहारकेयूरः किङ्किणीमणिभूषितः हेममालीमहादंष्ट्रः किरीटी कुक्षिबन्धनः ताम्रकेशो हरिश्मश्रुर्भीमाक्षः कनकङ्गदः रक्तचन्दनदिग्भाङ्गः सूक्ष्माम्बरधरो बली जवेन स तत्रा चालयन्निव मेदिनीम्